अथर्वेदे अष्टमाष्टके अष्टमोऽध्यायः ओ त्यञ्चिदत्रिमृतजुरमर्थमश्पन्नजातवे कक्षेवन्तम् यदि पुनारथम् न कृणुथो नमम् दृह्णङ् ग्रन्थिन्न विश्यतमत्रिञ्यविष्ठमारजाः न रादम् धिष्ठावत्र येषुभ्रातिषा सतन्धिजाः अथाहि वाो न रा पुनस्तोमो न विशसे चिते तद्वाहम् सुराधसा रातिः सुमतिरश्विना आयन्नः सदने पृथौ रमने पर्षथो नरा युवम् भुज्युम् समुद्र आरजसः पार एङ्क्षितम् यातमच्छा आप तत्रभिर्ना सत्या सातजे एकृतं। एकृतम् आमाम् सुन्दैः शय्यो इवमम् हिष्ठा विश्ववेधसा समस्मे भूशतन ओषतम् नरोत्सन्न विप्युषीरिषाः अयम् हि ते अमर्त्य इन्दुरत्योरपत्यते दक्षो विश्वायुर्वेदसे अयमस्मासु काव्यरुभुर्वज्रोतास्पते अयम् विभक्त्योऽर्थकृशनम् वरमृपुर्णत्यं मदम् घृशुश्येनायकृत्वन आशुष्पासुपंसकः अवजेद हेशुवाः यंसुपर्णः परापतश्येनस्य पुत्र आभरत् शतचक्रं यो ह्यो यन्ते श्येनश्चारुमवृतम् पदाभरतरुणम् मानमन्दसः एनावयोपितार्यायुर्जीवस एनाजागारबन्धुताः एवातदिन्द्र इन्दुना देवेषु सिद्धालय देमहित्यजाः क्रत्वापयोपितार्यायुः सुक्रतो क्रत्वायमस्मदा सुतः इमाङ् घनाम् योषधिम् वेरुधम् बलवत्तमाम् यया आसपत्नीम् बाधते यया आसंविन्दते पतिम् सुभगे देवजूते सहस्वते सपत्नीम् मे पराधमपतिम् मे केवलम् कुरु उत्तराहमुत्तर उत्तरेदुत्तराभ्यः अथा परा आमेव परावतम् सपत्नी इङ्गमयामसि अहमस्मि सहमाना सत्पमसि सा सहि उभे सहस्वते भू त्वे सपत्नी इमे सहा वहै उपते धाम् सहमानामभित्वा अधाम् सहीयसा मामनुप्रते मनो अभवत्सङ्गौरिपधावतु पथावारिपधावतु अरण्यान्यरण्यान्यसौ याप्रेमनश्यसि कथाग्रामन्न पृच्छसि न प्राभेरिव विन्दते वृषारवाय वदते यदुपावति चिचिकः आघाटिभिरिवधावयन्नरण्या निर्महीयते उत गाव इवादम् च्युतवेश्मे एव दृश्यते उतो अरण्या निः सायं शकटेरिव सज्जते वसन्नरण्यान्याम् सायमकृक्षदिति मन्यते न वा अरण्यानिरहन्त्यन्यश्चेन्नाभिगच्छति स्वारोः फलस्य जग्धाज यथा कामम् निपद्यते आञ्जनगन्धिम् सुरभिम् बह्वन्नामकृषेवला प्राहम् मृगाणाहम् मातरमरण्यानि वशंसिषम् श्रत्ते एतथामिप्र समायमन्यवे अन्यद्वृद्रम् नरिजम् विलेरपः उभे यद्वा भवतो रोदसी अनुरेजते सुष्मा प्रथिवेजिद्रिवः त्वम् मायाभिरणवद्यमायिनम् श्रवस्यता मनसा वृत्रमर्दयः त्वामिन्नरोणते कविष्टिषु त्वाम् विश्वासु हव्यास्विष्टिषु ऐषु चाकन्धिपुरुहोतसूरिषु वृथा सोजे मखवन्ना न शुर्मखम् वर्चन्तितोकेतन ये परिष्टिषु मेधसा आतावाजिनमक्रजेधने स इन्दु राजः सुभृतस्य चाकनन्मदञ्यो अस्य रम् कञ्चिके एतति पावृथो मघवन्दाश्वद्भरो मक्षोसराजम् भरते धना त्वम् श्रद्धाय महिनागृणा न उरुकृधिमघवन् छद्धिरायः मित्रो वरुणो न पित्को नदस्मदयसे विभक्ता सुष्वाणास इन्द्रस्तुमसि त्वास सवांसश्चतुविरम् न वाजम् आ नोपरसु विरञ्ज्यस्य चाकन्त्वनातनासनुयामत्पोताः पुष्पस्त्वमिन्द्रशूरजातो दासेर्भिषः सूर्येण सह्याः गुहा आहितम् गुप्तम् गोळमरमसि प्रस्रवणेन सोमम् अर्यो वागिरो अभ्यर्चविद्वानुषेणाम् विप्रः सुमतिम् च कालः तेऽस्यामजे रणयन्त सोमै रेणोत तुभ्यम् रथोळभक्षैः इमा ब्रह्मेन्द्रतुभ्यं शंसि दारुभ्यो नृणांशो रषवाः तेभिर्भवस्रतुर्येषु रागन्नु तत्रायस्त्वघृणत उतस्तेन श्रुधे हवमिन्द्रशोरभृथ्या उतस्तव सेवेण्यस्यार्कैः आयस्ते योनिम् घृतवन्तमस्वा रोर्मिर्न निम्नैर्द्रवयन्तमक्वा आह सभिता यन्त्रैः पृथिवी भरम्नादस्कम्भने सभिताद्यामदृंहत् अश्वमिवाधुक्षध्वनिमन्तरिक्षमतोऽर्ते एवबद्धम् सभिता समुद्रम् यत्राः समुद्रस्कभितो व्यो नतपान्नपात्सभिता तस्य वेद अतो भूरत आ उत्थितम् प्रजोतोद्यावा आपृथिवी पश्चेदमन्यदभवद्यत्रमवर्त्यस्य भुवनस्य भूना सुपर्णो अङ्गसविदुर्गरुत्मान् पूर्वो जातः स भु अस्यानुधर्म गाव इव ग्राम्यो युगिरिवाश्वान्वाश्रेववत्संसुमनादुहाना पतिरिवजायामभिनोऽन्येतुधर्ता दिवः सभिता विश्ववारः हिरण्यस्तोपः सवितर्यथा आत्त्वाङ्गिरसो जुह्वे वाजे अस्मिन् एवात्वार्चन्नवसेवन्दमानः सोमस्येवांशुम् प्रतिजागराहम् समिद्धश्चित्समिध्यसे देवेभ्यो हव्यवाहन आदित्यैरुद्रैर्वसुभिर्न आगहि मृणीकाय मर्तासस्त्वा समिधानः हवामहे मृळीकाय हवामहे त्वामु जातवे एतसं विश्ववारङ् गृणे धिया अग्ने एदेवाङ् आवहनः प्रियौ्रतान् मृळीकाय प्रियौरतान् अग्निर्देवो देवानामभवत्पुरोहितोग्निम् मनुष्या आर्षयः अग्निम् महो धनसातावहम्भुवे नृळीकम् धनसातये अग्निरत्रिम् हरद्वाजङ्गविष्ठिरम्ब्रावन् नः कण्वन्त्रसदस्युमाहवे अग्निम् वसिष्ठो हवते पुलोहितो मृळीकाय पुरोहितः श्रद्धयाग्निः स विध्यते श्रद्धया आहूयते हविः श्रद्धाम्भगस्य मूर्धनिव दसावे एतयामसि प्रियम् श्रद्धे ददतः प्रियम् श्रद्धेदिदासतः प्रियम् भोजेषु यद्भस्पितम् म उदितम् कृधि यथा आदेवा असुरेषु श्रद्धामुग्रेषु चक्रिरे एवम् भोजेषु यद्भ्वस्वस्माकमुदितम् कृधि श्रद्धाम् देवायजमानावाजुगो ओपा उपासते श्रद्धाम् हृदय्या अयापोत्या श्रद्धया आविन्ददेवसो श्रद्धाम् प्रातर्हवामहे श्रद्धाम् मध्यम् दिनम् परे श्रद्धाम् सूर्यस्य निमृतिः श्रद्धे श्रद्धाः पये हनाः मेधाम् मह्यमङ्गिरसो मेधाम् सप्तर्षयो दतुः मेधाम मेधान्ते वरुणो मेधान राजा मेधाम् देवी मेधान्ते ए अश्विनौ देवा वाधत्ताम् पुष्करस्रजा या मेधा अप्सरस्वगन्धर्वेषु जयन्मनाः दैवी या मानुषी मेधा सा माविशतादिमाम् यन्मेनोक्तम् तद्रमताम् शके एयरनुब्रुवे निशा आमतम् निशामहैमयू रतम् सहौ रतेषु भूया सम्ब्रह्मणा महि शरे एलम् मे विचक्षणम् वाङ्मे मधुमद्दुहाम् अवृद्धमहमसौ सौर्यो ब्रह्मणाले स्थश्रुतम् मे माप्रहासीः मेधाम् देवीम् मनसारे न मानाङ्गन्धर्वजुष्टाम् प्रतिनोजुषस्व मह्यम् मेधा अम्बर मह्यम् श्रियम्बद मेधा विभूयासमदराजविष्णु सदसस्वतिमद्भुतम् प्रियमिन्द्रस्य काम्यम् सनिम् मेधामया शिषम् याम् मेधाम् देवगणाः पितरश्चोपासते तया वा कुरु मेधाव्या अहम् मेधा मेधा सुमनाः सुप्रदे एका दद्धामनाः सत्यमतिः महायशाधारयिष्णुः प्रवक्ता भूया समस्मै शरया प्रयोगे शास इत्था महाङ्गस्य मित्रखादो अद्भुतः न यस्य हन्यते सखानजीयते कदाचन स्वस्थिता विषस्पतिर्वृत्रहाभिरुधो वशी पुषेन्द्रः पुर एतुनः सोमपा अभयङ्करः विरक्षो विमृधो ओजहि विवृत्रस्य हनोरुज इमन्यमिन्द्रवृत्रहन्न मित्रस्याभिदासतः विन इन्द्रमृतो दहि नीचायच्छवृतम् यतः यो अस्माकभिदासत्यथरङ्गमयातमाः अपेन्द्रद्भिधतो मनोपरिज्यासतो वधम् इमन्योः शर्म यच्छपरेयोजवयावधम् एयन्ते रपस्युव इन्द्रम् जातमुपासते वेजानासः सुवीर्यम् त्वमिन्द्रबलादसि सह सोजात ओजसः त्वमृषम् मृषेरसि त्वमिन्द्राशिवृत्रहाव्या अन्तरिक्षमतिरः बुद्यामस्तभ्रा ओजसा त्वमिन्द्रसजोषसमर्कम् बिभर्षि बाह्वोः वज्रंशिशा न ओजसा त्वमिन्द्राभिभोरसि सोम एके एभ्यः पवते घृतमेक उपा आसते येभ्यो मधुप्रधापदितांश्चिदेवापि गच्छतात् तपसाये अनाधृष्यास्तपसाये स्पर्ययोः तपोयेत क्लेम हस्तांश्चि देवापि गच्छतात् ये युध्यन्ते प्रथमे एशूराः सोयेत नोत्यजाः सहस्रदक्षिणास्तांश्चिदेवापि गच्छतात् ये चित्पूर्वरतसा परता वा आनरता वृथाः पितॄन्तपस्पतोयमतांश्चि देवापि गच्छतात् सहस्रणीताः कवयो ये गोः पायन्ति सूर्यम् ऋषेन्दवस्पतोयमतपूजाम् अपि गच्छतात् अरायिकाने विकटे गिरिम् गच्छ सदान्वे शिरीम्बिषत्पस्ते विश्वा जातयामसि चत्तो इतश्चत्तामुतः सर्वाभ्रूणान्यारुषे अराय्यम् ब्रह्मणस्पते तीक्ष्णशृङ्गो दृषन्निः अजो यद्दारुप्लवते अदो ओः पारे अपूरुषम् तदारभस्वदुर्हणो तेन गच्छपरस्तरम् यद्ध प्राचीरजगन्तोरो मण्डोरधाणिकेः इन्द्रस्य शत्रवः सर्वे बुद्बुदयाः शवः मे कामने सिमहर्ष देवेश्व कृतश्रवः क इमादधर्षति अग्निम् हिन्वन्धुः सप्तिमाशुमिपादिषु तेन येष्मदनन्दनम् यजागा आकरा महेशेन याज्ञेतभोत्या आग्ने स्थूरम् रजिम्भरपृथुङ्गोमन्दमश्विनम् अङ्िकम् वक्तया आपणिम् अग्ने नक्षत्रमयः सूर्यम् रोहयो दिवि दशज्योतिर्जने एभ्यः अग्ने एकेतुर्विषामसि प्रेष्ठश्रेष्ठ उपस्थसत् बोधा आस्तोत्रेऽव योदधत् इमानुकम्भुवनाशेषधामेन्द्रश्च विश्वे ये च देवाः निर्गञ्च नस्तन्बन्धप्रजाम् च आदित्यैरिन्द्रः सहते ये कृपाते आदित्यैरिन्द्रस्य गणो मरुद्भिरस्माकम् गोत्पविता प्रत्यम् चमर्कमनयञ्छते भिरादिवधामि शिराम् पर्यपश्यन् सूर्यो नो दिवस्पादुपातो अन्तरिक्षात् अद्यर्नः पार्थिवेभ्यः जोषासभितर्यस्य देहरः शतम् सपाम् अर्हति पारिणो यद्युतःपतन्त्याः चक्षुर्नो देवः सभिता चक्षुर्न उत चक्षुर्धाता दधातुनः चक्षुर्नोधे हि चक्षुषे चक्षुर्विखेतनोऽभ्याः सञ्चेतम् वि च पश्येम सुसन्दृशन्तापयम् पतिपश्येम पश्ये सूर्य विपश्येम नृचक्षसः उदसौ सूर्यो ओ अगादुदयम् मा आपको भगाः अहम् केतुरहम् मूर्धाहमुद्राविवाचने ममेतनुत्रतुम्बरिस्येहानाया उपाचरेत् मम पुत्रा शत्रुहणोऽसो ओमे दुहिता विराट् उताहमस्मि सञ्जयापत्यौ ओमे उत्तमः येनेन्द्रो ओहविधा आकृत्य भवद्युन्युत्तमः इदम् तदग्निदेवासपत्नाखिला आभुवम् असपत्ना सपत्मघ्ने जयन्त्यभिभूवरे आवृक्षमन्यासाम् वर्चो राधो अस्थेयसामिव समजैषमिमा अहम् सपत्नेरभिभूवरे यथाहमस्य वीरस्य विराजा वी आदिजनस्य च देवस्याभिवयसो अस्य पा आहि सर्वरथा विहरे इहमुञ्च इन्द्रमात्पादिदमानासो अन्ये निरेलमन्तुभ्यमिमे सुतासाः तुभ्यम् सुतास्तुभ्यमुसोऽत्पा सस्त्वाङ्गिरश्वात्म्या आह्वयन्ति इन्द्रेदमद्य समनञ्जुषाणो विश्वस्य विद्वाङ्गिहपा आहि सोमम् यपुषता मनसा सोममस्मै सर्वहृदा देवका मत्स्रोते नगा गा इन्द्रस्तस्य परा ददाति प्रशस्तमिच्चारुमस्मै कृणोति अनुस्पष्टो भवत्येषो अस्य यो अस्मै देवान्न शृणोति सोमम् निररत्नौ मखवातम् दधाति ब्रह्म द्विषो अहन्त्यनानुदिष्टः अश्वायन्तो अगव्यन्तो अभाजयन्तोऽहवामहेत्वोपगन्तवा आभूषन्तस्ते सुमलौनवायाम् भयमिन्दत्वा सुनम् हुवेम भुञ्चामित्रापिषा जीवनायकमज्ञातयक्ष्मादुतराजयक्ष्मार ग्राहिर्जग्राह यदि वैतदे एनन्दस्याः इन्द्राग्नेप्रभुमुक्तमेनम् यदि क्षितायुर्यदि वापरे एतो यदि मृत्योरन्तिकन्नित एव माह रामिनिरतेरुपस्थादस्पार्षमेनम् शतशाहारदाय सहस्राक्षेण शतशाहारदेन शतायुषा हविषाहारषमेनम् शतञ्यसेवम् शरदो न यातेन्द्रो विश्वस्य दुरितस्य पारम् शतञ्जे एव शरदो वर्धमानः शतम् हे एवन्ताञ्छतमुपसन्तान् शतमिन्द्राग्ने सविता बृहस्पतिः शतायुषाः विषेवम् पुनर्दुः आहारषन्ता विदन्ता पुनरागाः पुनर्नव सर्वा अङ्गसर्वम् ते चक्षुः विदम् ब्रह्मणाग्निः संविदानो रक्षोः बाधतामिदः अमे एवायस्ते यस्ते गर्भममे एव धुर्णामायोनिमाशजे अग्निष्टम् ब्रह्मणा सह निष्क्रव्यादमनेन यस्ते हन्ति पतयन्तम् निषत्स्मि यः सरिसृपम् जातम् यस्ते जिघा अंसदितमितो ना आशयामसि यस्त ओरो यो यस्त्वाभ्रातापदिर्भूत्वा जारो भूत्वा निपद्यते प्रजां यस्ते जिघा अंसदितमितो नाशयामसि यस्त्वा स्वप्नेतमसामोहयित्वा निपद्यते प्रजां यस्ते जिघा अम्सदितमितो नाशयामसि अक्षेभ्या अन्ते नासिकाभ्याम् कर्णा आभ्याम् शुबुकादधि यक्ष्मम् शीर्षण्यम् मस्तिष्का जिह्वाया विगृहामिते द्रीवाभ्यस्त उष्ण्यहा आभ्यस्तिकसाभ्यो अनोक्यात् यक्ष्मम् दोषण्या अमंसा आभ्याम् बाहुभ्याम् विगृहामि ते आन्त्रेभ्यस्ते गुदाभ्यो मनिष्ठोरहृदयादधि यक्ष्मम् अदस्नाभ्याम् यक्नः प्लाशिभ्यो विगृहामि ऊरुभ्या अन्ते अष्ठीमद्भ्याम् पार्ष्णिभ्याम् प्रपदाभ्याम् यक्ष्मम् श्रोणिभ्याम् भासदात्मम् ससो विबृहामि ते मेहनात्मनम् करणाल्लोमभ्यस्ते नखेभ्यः यक्ष्मम् सर्वस्मादात्मनस्तमिदम् विबृहामि ते अङ्गादङ्गाल्लोम् न लोम् नो यक्ष्मम् सर्वस्मादात्मनस्तमिदम् विवृहामि ते अपेहिमनस्वदे वक्रामपरश्चर परो निरत्या आचक्ष्मबहुधादीवतोमनाः भद्रम् वै वरम् वृणते भद्रम् युञ्जन्ति दक्षिणम् भद्रम् वै एव स्वते चक्षुर्बहुत्रादेव तोमनाः यदाशसा आदिशसा अभिशसो अपाधिमजाग्रतो यत्स्वपन्ताः अग्निर्विश्वान्यपदुष्कृतान्यजुष्टान्यारे अस्मद्दधातु यदिन्द्रब्रह्मणस्मतेऽभिद्रोहम् जरामसि प्रचेतान आङ्गिरसोद्विषताम् पाक् ब्रह्मसः अजैष्वाद्यासनाम च भूमानाकशोभयम् स्वप्नः सङ्कल्पः पापोऽयम् विष्मस्तम् सलच्छतु यो नोद्वेष्टितमृच्छतु देवाः कपोत इषितो यदिच्छन् दूतो निरलत्या इदमा तस्माः तस्मा अर्चाम प्रणवाः मनिष्कृतिं सन्नोः अस्त्वद्दिपदेशम् चतुष्पदे शिवः कपोत इषितो नोः अश्वनागादेवाश्र पुनो गृहेषु अग्निर्हि विप्रो दुषताम् हरिर्नः परिहेतिः पक्षिणे वृणक्तु एतिः पक्षिणी न तपाद्यस्मानाष्ट्रियाम् पदम् गृह्णुते अग्निधाने षन्नो गोभ्यश्च पुरुषेभ्यश्चास्तु मानोहिंसे लिहते एवाः कपोताः यदु लो कोपदति मोघमेतद्भ्यत्कपोतः पदमग्नौ गृणोति यस्य दूतप्रहिष एष एतत्तस्मै यमाजनमो अस्तु मृत्यवे रुचाकपोतम् नुरतप्रणोरविशम्मतम् अः परिगान्नयध्वम् सयोपयन्तो दुरिता निविश्वारित्वानपूर्जम् प्रपदात्मतिष्ठः वृषभम्मासमानानाम् सपत्नानाम् विषासहिम् हन्तारम् शत्रूणाम् कृधि विराजङ्गोपतिङ्गवाम् अहमस्मि सपत्नहेन्द्र इवारिष्टो अक्षतः रथः पदोरिमे सर्वे अभिष्ठिताः अत्रैव कोऽपि न ह्याम्युभे आत्मी इमज्यया वाचस्पते दिशे धेमान्यथा मदधरं वदान् अभिभो रामागमम् विश्वकर्मे राम्ना आपश्चित्तमा योगक्षेमम् बहादायाहम्भो यासमुत्तम आवो अमूर्धानमक्रमे अधस्पदान्व उद्बलत मण्डूकाः इवोदकान्मण्डूकाः उदकादिव भेदमिन्द्रपरिषिच्यते मधुत्वम् सुतस्य कलशस्य राजसे त्वम् रीम्बुर्वीरामुनस्कृति त्वन्दवः परितर्प्या आजयः इमन्नो यज्ञमिह गोध्यागहि हमद्यमघवन्नुपस्तुतौ धातर्विधा आतः कलशाङ्गमक्षयम् पसूतो भक्षमकरम् चरावपि स्तोमम् चैवम् प्रथमः सुते सा ते न यद्यागमम् वामृति विश्वामित्रजमलग्नीरमे वातस्य नु रथस्य रुजन्मे एति स्तनयन्नस्य स्प्रज्ञात्य ऋणानि कृण्वन्नुतो एति पृथिव्या रेणुमस्यन् सम्प्रेरते अनुवादस्य विष्ठा ऐनम् गच्छन्ति समनन्नजोषाः ताभिः सयुत्सरथम् देव ईयतेऽस्य विश्वस्य भुवनस्य राजाः अन्तरिक्षे पथिभीयमानो न लिविशते पाम् सखा प्रथमजागता वाक्वस्मितः कुतः आ बभूव आत्मा देवानाम्भुवरस्य गर्भो अयथापशरति देव एषः घोषा इदस्य षण्विधेन रूपम् तस्मै वातायः विशा आविधेम मयो भूर्वातो अभिवाहदूस्रा ऊर्जस्वती रोषधीरादिशन्ताम् ीवस्वतीर्जीवसन्याः पिबन्द्वसाय पद्मते रुद्रमृड याः स रोपापि रो ऊपा एकरूपा यासामग्निरिष्ट्या नामा आनिवेद या अङ्गिरसस्तपसेहचक्रुस्ताभ्यः पर्जन्यमहि शर्म यच्छ या देवेषु तन्वा अस्मभ्यम् वयसा पिन्वमानाः प्रजापतेरिन्द्रगोष्ठेरिः प्रजापतिर्मह्यमेताररा आढो विश्वैर्देवैः पितृभिः संविधानः शिवाः सतीरुपनो गोष्ठमाकस्तासाहम् वयम् प्रजयासंसदेम बिभ्राड्बृहत्तिपतु सोम्यम् मध्वाजुर्दधद्यज्ञवतामभिः श्रुतम् आतज्योतोजो अभिरक्षतिमनाः प्रजाः पुपोषपुरुधाभिराजति बिभ्राड्बृहत् सुहृतम् वाजसातमन्धर्मन् दिवो धरुणे सत्यमर्पितम् अमित्रहात्रहा दस्युहन्तमन् ज्योतिर्जज्ञे असुरः सपत्नः इदम् श्रेष्ठम् ज्योतिषाम् ज्योतिरुत्तमम् विश्वजिर्थच्यते बृहत् विश्वभ्राड्भ्राजो महि सूर्यो ओदृष उरुपप्रथेशः ओजो अच्युतम् विभ्राजम् ज्योतिषास्वारक्षोरो चनन्दिवः येनेमाविश्वाभुवनान्याभृता विश्वकर्मणा विश्वदेेव्यावता त्वन्त्यमिटतोरथमिन्द्रप्रावः सुतावतः अशृणो सोमिनोऽहवम् त्वम् अखस्य दोषतशिरोवत्मचोहरः अगच्छः सोमिनो गृहम् पञ्चमिन्द्रत्यमास्त्रबुध्नाय वेण्यम्नामनस्यवे पञ्चमिन्द्रसूर्यम् पश्चासन्तम् पुरस्कृति देवानाञ्चित्तिरोवशम् आया आहिमनसा सहगावः सदन्तवर्तनीयदूतभिः आया आहिमस्याधियामम् जा निष्ठो जालयम् महः सुदानुभिः भृतो न तन् आमसे। यजामसि उषा अपस्पसुस्तमः संवर्तयति वर्तनिम् सुजातता आत्मा आहर्षमन्तरे ध्रुवस्तिष्ठापि चाचलिः दिशस्वा सर्वा आ वाञ्छन् इन्द्र इमेह ध्रुवस्तिष्ठेह राष्ट्रमुधारय इममिन्द्रो अधिधरद्धुवम् ध्रुवेण हविषा तस्मै सोमो अधिब्रवत्तस्मा उ ब्रह्मणस्पतेः ध्रुवा द्यौर्ध्रुवा पृथिवे ध्रुवा सः पर्वता इमे ध्रुवम् विश्वमिदम् राजा आविशामयम् ध्रुवन्ते राजा वरुणो ध्रुवम् देवो बृहस्पतेः ध्रुवम् तरिन्द्रश्चाग्निश्च राष्ट्रम् धारयताम् ध्रुवम् ध्रुवम् ध्रुवेण हविषाभि सोमम् वृषामसि अथो ओत इन्द्रः केवलीर्विशोऽपरिहृतस्करत् अभिवर्तेन हविषादेनेन्द्रो अभिवावृते तेनास्मान् ब्रह्मणस्पतेऽभिराष्ट्राय वर्तय अभिवृत्य सपर्त्नानभिया नो अभिवृतन्यन्तम् निष्ठाभियो इरस्यते अभित्वा आ देवः सविदाभिसोमो अवीवृतत् अभित्वा विश्वा आ भूतान्यपि वर्तो यथाससि येनेंद्रो अविशा आकृत्य भवद्युण्युत्तमः इदम् तदक्रिदेवा असपत्नः किला अभुवम् असपत्नः यथाहमेषाम् भूतानाम् विराजा आनिजलस्य च प्रवो ग्रावाणः सपिता देवः सुवतु धर्मणा धूर्षु यद्यध्वम् सुनुता ग्रावाणोऽपदुच्छुनामपसेतदुर्मदिम् उत्स्राः कर्तनभेषजम् ग्रावाण उपरेष्वा महीयन्ते स ्रावाणः स पितानुवो देवः सुवतु धर्मणा यजमानाय सुन्वते प्रसूनवरुभूणाम् बृहन्नवन्त वृजना क्षामाये विश्वधा आयसोष्णम् धेनुन्न मातरम् भरता जातवे एतसम् हव्यानो वक्षदानुषक् अयमुष्यप्रदे योरभीकृतोवाञ्चेरवित्मना अजमग्निरुष्यत्यमृता जिभजन्मनः सहस्रित्सहेवो जीवातवे कृतः पतङ्गमक्तमसुरस्य मायया आहृदा पश्यन् जीवनसापि पश्चिताः समुद्रे अन्धः कवयोऽभि च क्षते मरेचीनाम् पदमिच्छन्ति वेधसाः पतङ्गोवाचम् मनसाभिभर्तिताङ्गन्धर्वो वदद्गर्भे अन्तः ताङ्ग्योतमानाम् स्वर्यम् मनीषामृतस्य पदे कपयोनिपान्ति अपश्यम् गोपामनिपद्यमानमा च परा च पथिविष्टरन्तम् स सध्रे चे सविशोचेर्वसा न आवले वर्तिभुवनेष्पन्तः यमोषु वादिनन्देवम् सधावा आनन्दृता अरिष्टनेमितराजमाशुम् स्वस्तजेतार्क्ष्यमि माहुवेम निन्द्रस्येव रातिमाजो हुवाना स्वस्तजेनावमिवारुहेम उर्वेण पृथ्वे बहु लेगभी रेमा वामेतौ मा परे एतौ सद्यश्चिद्यश्रवसापञ्चकृष्टे सूर्य इव ज्योतिषापस्तता न सहस्रताश्चतसा अस्य रम्भिर्न स्मापनन्ते युवतिर्नशर्याम् उत्तिष्ठतापपश्यतेन्द्रस्य भागमृद्विजम् यदि श्रतो जुहोतन यद्यश्रातोमवत्तन श्रातम् अविरोऽष्मिन्द्रप्रयायि जगामसूरो वध्वनो विमध्यम् परित्वासते निधिभिः सखा आयः कुलपालौ राजपतिञ्जलम् तम् श्रातम् मन्य ओषनिः श्रातमग्नौ शुश्रातम् मन्येतदृतम् न वीयः माध्यन्दिरस्य सवनस्य रघ्नः पिबेन्द्रवज्रिम्बुरकृजुषाढः रससाहिते पुरुहो दशत्रोञ्ज्येष्ठस्ते सुष्म इह रातिरस्तु इन्द्राभरदक्षिणे नामसो रिपतिः सिन्धो नामसि रेवना मृगो न भीमः कुचलो गिरिष्ठाः परावताजगन्थापरस्याः सृकम् संसाय पविमिन्द्रदिग्मम्बिशत्रोऽन्ताढ्यविमृधोऽनुदस्व इन्द्रक्षत्रमहि वामोजोजा यथा वृषभजर्षणीना अपानुगोचनममित्रयन्त पुरुम् देवेभ्यो अकृणोरुलोकम् प्रथश्च यस्य सप्रथश्च नामानुष्टुमस्य हविशो हविरुयत् धातुर्विदानात्सविदुश्च विष्णो रसन्तरमाजभा नावसिष्ठः अविन्दन्ते अतिहितम् यदा से यज्ञस्य धामपरमङ्गुहायत् धातुर्दुता आनात्सविदुश्च विष्णोर्भरद्वाजो बृहदाचक्रे अग्नेः ते एविन्दन् मनसाजीध्या आनायजुष्कन्नम् प्रथमन्दे एव जानम् धातुर्द्युता आनात्सविदुश्च विष्णोरासूर्यादभरम् धर्ममेते बृहस्पतिर्नयतु दुर्गः आदिनः पुनर्नेतदघशंसायमन्ना क्षिपदशस्त्यमपदुर्मतिम् हन्नथा आकरद्यजमानायशंयोः न राशंसो नो मरुप्रयाजे शन्नो अस्वनुयाजो ह वे एषु क्षिपदशस्त्यमपदुर्मतिम् हथा आकरद्यजमानायशंयोः तपुर्मूर्धा तपदु रक्षसो ये ब्रह्मद्भिश्शरवेऽहन्तवा ओ क्षिपदशस्त्यमपदुर्मतिम् हन्नथा आगरद्यजमानाजशयोः अपश्यन्तामनसा चेकितानम् तपसो जातम् तपसो विभोरम् यः प्रजा विहरजिम् रः प्रजा आयस्वप्रजयाः पुत्रकाम अपश्यन्तामनसादीर्ध्यानाम् स्वायाम् तनोरुद्वेनाधमानाम् उपवामुच्चायुपतिर्बभूयाः प्रजा आयस्वप्रजयाः पुत्रकामे अहम् गर्भमदधामोषधेष्वहम् विश्वेषु भुवनेष्वन्तः अहं प्रजा अजनयम् पृथिव्यामहम् जनिभ्यो अपरेषु पुत्राण विष्णुर्योनिम् कल्पयतु त्वष्टा रूपाणि विंशतु आसिञ्जतु प्रजापतिर्धाता गर्भम् दधातु ते गर्भम् धेहि दिनेवायिगर्भम् धेहि सरस्वति गर्भन्ते अश्विनो देवाबाधत्ताम् पुष्करस्रजा हिरण्यये अरणीयम् निर्मन्थतो अश्विनाः सन्दे गर्भम् हवामहे दशमे मासि सोतवे नेतमे शपरा आपत सुपुत्रः पुनरापत अस्यैमे ए पुत्रका आवाजि गर्भमाधेहियः पुमार यथेयम् पृथिवीमह्युत्ताना एवन्तम् गर्भमाधे एहिदशमे मासिशोतमे विष्णोश्रेष्ठेन रूपेणास्यान्नार्याङ्गवीन्याम् उवाहम्सम् पुत्रानाथे एहि दशमे मासिशोतमे महित्रीणाभोऽस्तु द्युक्षम् मित्रस्य यम् नः दुराधर्षम् वरुणस्य न हि तेषा ईशे एरिपुरखशंसः यस्मै पुत्रा सो अलितेः प्रदीवसे भर्त्या आय ज्योतिर्यच्छन्त्यजस्रम् वात आवा आतु भेषदम् शम्भुमयो भुनो ओहृते प्रण आयोंशितारिषद उत वा आत पितासिन उत भ्रातोत नः सखा स आतते गृहे हितः ततो नो देहि जीवसे प्राज्ञये वाचमीरजवृषभायक्षिदीनाम् स नः परषलति द्विषाः यः परावत परावतस्तिरोधन्वा आदि रोचते स नः परषलदिद्विषाः यो रक्षाम्सिजोर्वतिवृषाः शुक्रेण शोदिषाः स नः परषलदिद्विषाः यो विश्वाभि विपश्यति भुवनाशम् च पश्यति स यो अस्य पारे रजसः शुक्रो अग्निरजायत स नः पर्षददिद्विषाः अनीगवन्तमूतयेऽग्निङ्गेर्भिरहवामहे स नः पर्षददिद्विषाः प्ररोदम् जातवेदसभम् हिनोतभाजिनम् इहन्नो बर्हिरासदे अस्य प्रजातवे एतसोऽभिप्रवेदस्य वेणुषाः महेमि यर्मि सुष्ठुतिम् या रुचो जातवे एतसो देवत्राहौ यवाहनीः ताभिर्नो यज्ञमिन्वतो आयङ्गौ वृष्णिरक्रमेतस तन्मातरम् पुरः पितरम् च प्रयन्स्वाः अन्तश्चरतिरोचनास्य प्राणादपानते व्यक्षन्महिषो त्रिंशद्धामविराजति वाग्मतङ्गाय धीयते प्रतिमस्तोरहद्युभिः कृतम् च सत्यम् चाभित्तपसोऽध्यजायत ततो रात्रिजायत ततः समुद्रोऽर्णवः समुद्रादर्णवादति संवत्सरो अजायत अहोरात्राणि विदधद्विश्वस्य विशतो वशी सूर्याचन्द्रमसौ ओधाता यथा पूर्वमकल्पयत् दिबम् च पृथिवीम् चान्तरिक्षमथोऽ स्वाह संसमिद्युवसे वृषन्नग्ने समिध्यसे स नो वसोऽन्याभर सङ्गच्छध्वम् संवदध्वम् सम्भोमना देवा भागम् पूर्वे एसञ्जाना उपासते समानो मन्त्रः समितिः समाने समानम् मनः सह चित्तमे एषा समानम् मन्त्रमभिमन्त्रयेवः समानेन वो हमिषा आजुहोमि समानीव आपूतिः समाना हृदयानि वः समानमस्तु वो मनो यथा आवस्सु सहा सति समञ्ज्ञानशना अवदत् सञ्ज्ञानम् वरुणोऽवदत् सञ्ज्ञानमिन्द्रश्चाग्निश्च सञ्ज्ञानम् सवितावदत् सञ्ज्ञानम् अश्वेभ्यः सञ्ज्ञानमरणेभ्यः सञ्ज्ञानमश्विना आयुवमिहास्मा असुनियच्छता यत्कक्षीवाहम् संवलनम् पुत्रो अङ्गिरसाम् भवेत् तेन नोद्य विश्वे एदेवाः सम्प्रियाम् समजीजनन् सम्भोमनांसि जानताम् समाको धर्मनाहामसि असौ योऽपि मनामनः संसमावर्तयामसि वैरहस्यंसे एनादरणम् परिवर्त्मे तु यद्धभिः तेनाहामित्राणाम् बाहोऽन्हविषा शोषयामसि परिवर्त्मान्येषामिन्द्रः पूषा च सस्रतुः एषा अम्बो अग्निदग्धानामग्निमो उल्लानामिन्द्रो अहन्तु वरम् वरम् ऐषु नक्यवृषादिनम् हरिणस्य धिसा परा आङ्ग्राम् वैषत्पर्वाची एगौरुपाजतो प्राध्वराणा अम्बदेवसोः तर्वरेऽण्यक्रतो तुभ्यङ्गा यत्र नृत्यते गोका आमो अन्नका प्रजाका आम उत कश्यपः भूतम् भविष्यत्प्रस्तौ सह ब्रह्मैकमक्षरम् बहुब्रह्मैकमक्षरम् यदक्षरम् भूतकृतम् विश्वे एदेवा उपासते महर्षिस्य गोप्तारम् जमदग्निरकुर्वतम् यमदग्निराप्यायते छन्दोभिश्चतुरुत्तरैः राजा सोमस्य भक्षेण ब्रह्मणा वीर्या आवता शिवा नः प्रतिशोदिषः सत्यानः प्रतिशोदिषाः अजोयत्तेजोदृश्रेक्रञ्ज्योतिः परो गुहा यदृशैः कश्यपस्तौति सत्यम् ब्रह्मजराजलम् ध्रुवम् ब्रह्मजराजनम् त्र्यायुषम् जमदग्ने कश्यपस्य त्र्यायुषमगस्त्यस्य त्र्यायुषम् यद्धेवानान्द्रियायुषम् तन्मे अस्तुत्र्यायुषम् सर्वमस्तु सदायुषम् बलायुषम् तच्छञ्जोरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवीस्वस्तिरस्तुरस्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जि गातुभेषदम् सन्नो अस्त्वद्यपदेशम् चतुष्पदे इति अष्टमाष्टके अष्टमोऽध्यायः विश्वेश्वरविरूपाक्षविश्वरूप सदाशिव शरणम् भवभूतेश करुणाकरशङ्कर हरशम्भो महादेव विश्वेशामरवल्लभ शिवशङ्करसर्वात्मन्नीलकण्ठनमोऽस्तु ते मृत्युञ्जयाय रुद्राय नीलकण्ठाय शम्भवे अमृतेशाय शर्वाय महादेवाय नमः उग्रायोग्राघनाशाय भीमाय भयहारिणे ईशानाय नमस्तुभ्यम् पशूनाम् पतये नमः दश सप्तचनामानि मण्डलान्तेषु यः पठेत् शिवलोके महीयते नास्ति मृत्युभयम् तस्य पापलोगादिकिञ्चन यज्ञेषाच्युतगोविन्दमाधवानन्दकेशव कृष्णविष्णो ऋषिकेशवासुदेव नमोऽस्फुरे कृष्णाय गोपिनाथाय चक्रिणे मुरवैरिणे रुक्मिणीशाय गोपाय गोविन्दाय नमो नमः साक्षान्मूलप्रमाणाय विष्णोरमिततेजसे आद्याय सर्ववेदानाम् ऋग्वेदाय नमो नमः हरिहर शिवशङ्कर वामन ॐ शान्तिः शान्तिः हरिः ओ